अथ पञ्चदशम् दशकम् मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वम् देवहूत्यै प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपि हृदपि दशाक्षी इति विदितविभागो सौ प्रकृत्या कपिलतनुरितित्वम् देवहूत्यै न्यगादीः प्रकृतिगतगुणौ घैर्नाज्यते पूरुषोऽयम् यदि तु स जति तस्याम् तद्गुणास्तम् भजेरन् मदनुभजन तत्त्वालोचनैः साप्यपेयात् कपिलतनुरितित्वम् विमलमतिरुपात्तैरासनाद्यैर्मदङ्गम् गरुडसमधिरूढम् दिव्यभूषायुधाङ्कम् रुचितुलिततमालम् शीलये तानुवेलम् कपिलतनुरितित्वं। त्वम् देवहूत्यै न्यगादीः मम गुणगणलीला कर्णनैः कीर्तनाद्यैर्मैसुरसरिदो कपिलतनुरितित्वम् देवहूत्यै न्यगादीः अहः बहुलहिंसा सञ्चितार्थैः कुटुम्बम् प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली विशतिः गृहसक्तो यातनाम् मय्य भक्तः कपिलतनुरितित्वम् देवहूत्यै न्यगादीः युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे प्रसवगलितबोधः पीडयोल्लङ्घ्य बाल्यम् पुनरपि तारुण्यकाले कपिलतनुरितित्वं त्वम् देवहूत्यै न्यगादीः पितृसुरगणयाजी धार्मिको यो गृहस्थः स काले दक्षिणाध्वोपगामी मयि निहितमकामम् कर्म तूदक्पथार्थम् इति सुविदित सुविदितवेद्याम् देव हे देवहूतिम् कृतमति त्वम् गतो योगि सङ्घैः विमलमतिरथासौ भक्तियोगेन मुक्ता त्वमपि जनहितार्थम् वर्तसे प्रागुदीच्याम् परम किमु त्वत्पदाम् भोजभक्तिम् सकलभयविनेत्रीम् सर्वकामोपनेत्रीम् वदसि त्वम् तद्विधूयामयान्मे गुरुपवनपुरेश त्वय्युपाधत्स्वभक्तिम् इति पञ्चदशम् दशकम्